गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् ट्वेण्टि सिक्स् क उवाच सिद्धे विवाहे च ततो मयूरे शशिखण्डिनम् आरुह्य सहसा गन्तुं नगरीं स्वामि येषसः स्वं स्वं वाहनमारूढ गीर्वाणास्तत्क्षणेन यान्दिस्म पुरतस्तस्य मुनयः पृष्ठदोयुः अन्वयुर्नागराः सर्वे स्त्रियश्च बालकानि च आनन्दयुक्ता नगरात् सहसा चक्रपाणिना वाद्यत्सु सर्ववाद्येषु न नृतुश्चाप्सरो गणाः रणभूमिं गतो यावन्मयूरेशोकिलैर्वृतः तावत् स्कन्धादयो वीरा प्रार्थयाञ्चकृ विभुं वीराऊचुः सेनाचरादैत्यगणैर्निहदा युद्धसम्भ्रमाद उत्तस्तु सर्व एव वैदेतोत्कटाक्षामृदोक्षिताः तान् दृष्ट्वा जीवितांस्ते न सर्वे देवाश्च नागराः विस्मयं परमं प्राप्ताः साधु साध्वा ब्रुवंस्तदा तदो योजनमात्रं च दत्त्वा मार्गमवस्थितः देवो ब्रवीचक्रपाणिं मूर्ध्नि दत्त्वा करं शुभम् आलिङ्ग्य दश दोर्दण्ढैः शत्रुः पक्षभयङ्करैः देव उवाच त्वं याहि गण्डकीं शीघ्रं नागरैर्मम वाक्यतः क उवाच यवमाकर्ण्य तद्वाक्यं मुमोचाश्रोणि सत्वरं नागराश्च प्रणम्योच्चैरुचिर्वाक्यं शुचान्विताः यत्र या न चार्हसि नागदस्यात् पूर्वमेव तदा दुःखं ननो भवेद् यमुक्त्वा नमस्कृत्य ययुः सर्वे तदा ज्ञया चक्रपाणिरपि तदा नमस्कृत्य ययौ पुरः वर्णयन्तो गुणगणांस्तदीयानद्भुतान् क्षणेन नगरीं प्राप्य चक्रपाण्यनुमोदिताः नागरास्वगृहं प्राप्ताश्चक्रपाणिर्निजालयम् पञ्चानामपि देवानां प्रासादानाप्यकारयत पञ्चायतनमूर्तिं च स्थापयामास तेषु च प्रत्यपं पूजयामास भक्तिभावसमन्वितः मयूरेश पुरीं प्राप्तो मयूरेशोऽपि आश्चर्यं परमं प्राप्ता गणा सर्वे निरीक्ष्यतां यस्यां रत्नमया स्तम्भा एको नादृश्यदे तत्रात्सङ्ख्यादजनसंयुधः प्रविश्य स सभां रम्यां ब्रह्मादीनुपवेश्य च मध्ये विवेश च ततो लोकयन् सर्वतः स्वयं ददर्शपूर्वे भागे स मन्मथं देवीम् मार्जारनाम्नीं ता लोके ख्यादां सुखप्रदां दक्षिणस्यां दिशि तदा लोक यत्पार्वती शिवौ तत्पुरो विरजां देवी भक्तकामप्रपूरिकां पश्चिमायां दिशि तदो वाराकं धरणीयुधम् आश्रयां नाम देवीं च सर्वविघ्नहरां शुभाम् उत्तरस्यां दिशि तदा श्रीहरिं समलोकयद मुक्ता देवीं च विख्यातां सर्वमुक्तिप्रदां तदः त्रयस्त्रिंशत्कोटिसुरास्थितास्तद्दर्शनेच्छया भाद्रशुद्धप्रतिपदि स्नात्वाभ्यर्च्य गजाननं गत्वा तु पूर्वदिग्भागे मार्जारीं पूजयेतडः दत्त्वा दानानि विप्रेभ्य स्मृत्वा ध्यात्वा गजाननं मौनं मृतं समास्थाय न कृमिकीडपदङ्कादिन्न हिंसेत्प्रयतशुचिः पुनस्नात्वा स्नात्वा देवदेवं गजाननं। पूर्ववत्तु द्विदीयेऽ्नितृदीये च तदक्रमाद क्रमाद तथैव दक्षिणद्वारि विरजां द्विदयेहनि तृतीये पश्चिमद्वारि तथैवाश्रमसंज्ञितां नत्वार्चये चतुर्भ्यां तु दु तद्वदुत्तरदो नरः मुक्तां देवीं समभ्यर्च्य मयूरेशं च तद्दिने पूजामहोत्सवं कुर्याद्रात्रौ जागरणं चरेद एवं ह्यः कुरुदे भक्रियाद्वाराणि चोपवासदः स सर्वाल्लभदे का मान्मयूरेशप्रसादः चतुर्ध्यामेव चत्वारिशक्रोद्वाराणि पूर्ववद आद्यन्तमज्जनाद्देवदर्शनं च करोति यः तस्य सद्य फलं दद्यात् परितुष्टो गजाननः तस्माच्चोद्धप्रतिपदमारभ्य ब्रह्मचर्यवान् ततश्च दुर्ध्यामुषसि स्नानं कृत्वा विधानतः नित्यं सम्पाद्य विधिवन्मयूरेशं समर्चयेद् प्रदक्षिणा नमस्कारान् कुर्यादेवैकविं सतिं पूर्वद्वारे नमस्कृद्य मार्जारीं त्वरयान्विदः एवं शिवा वाश्रयां च मुक्ता देवीं नमेत्परां प्रारभे दिनशेषे तु मयूरेश्वरपूजनम् षोडशैरुपचारैस्तु पूजयेत् सुसमाहितः रात्रौ जागरणं कुर्याद्गीतवादित्रनिःस्वनैः प्रभादे विमले स्नात्वा पुनर्देवं समर्चयेद् ब्राह्मणैः सह कुर्वेद पारणं स्वस्य च क्रिदः तेभ्यो दध्याद्भिरण्यं च वासो गवादिकं येवं ह्यः कुरुदे मर्त्यो दुःसाध्यमपि साधयेद् पुत्रपौत्रयुतो भोगान् भुक्त्वा चान्दे व्रजेद्दिवम् इन्द्रादयो लोकपाला पूजयिष्यन्ति तं नरः सेवन्दे पादकमलं तस्यया या अष्टा नायिकाः अंधस्तु लभदे दृष्टिं मोकोवाचं लभे ध्रुवं बधिरश्रुतिमाप्नोति पङ्गुश्च चरणावपि भार्यार्थी लभदे भार्यां विद्यार्थी लभदे मदिम् ये तदेव फलं प्रोक्तं द्वारेषु चोपवासदः ततः कदाचिद्देवेशो मयूरेषोऽखिलान् सुरान् उवाचस्लक्ष्मयावाच हरिब्रह्म शिवादिकान् मयूरेश उवाच यदर्थमवतीर्णोऽहं तत्कार्यं कृतं सुराः निषदा बहवो दैत्या भूभारश्चकृतो लघुः सिन्धोकारा गृहात् सर्वे मोचिता अमृतान्धसः स्वाहा स्वधाष्कारा भविष्यन्ध्ये यथा पुरा भवतामाज्ञया देवा यस्य स्वं धाम साम्प्रतं एवमाकर्ण्य तद्वाक्यं सर्वे शुचान्विताः त्यजन्तोऽश्रूणि सम्प्रोजुः परस्परमुखे क्षणाः अस्मां त्यक्त्वा मयूरेश्चक्व समीहसे कथं स्नेहं परित्यज्य नैष्टुल्यं परमं गदः ततस्तत्पार्वती श्रुत्वा सहसा शोकर्षिता पपादमूर्च्छिदा भूमौ मुहूर्ता दवदच्चर्षा पार्वत्युवाच दीननाथदया सिन्धो सिन्धुदैत्यविमर्दना क्वास्यदि जगन्नाथ हित्वा मां तव न स्थास्यन्ति मम प्राणास्त्वयि यादे देव उवाच द्वापरे पुनरेवाहं यास्येत्त्वत्पुत्रदां शुभे न मिथ्या वचनं मे स्यान्न ममापि दुःखमदुलम्बियोगात् तव जायते नैकत्र सर्वदा मादः सुह्रवसतिर्भवेद् सिन्धूरो नाम दैत्योऽपि भविष्यति सुदारुणः अवध्य सर्वदेवानां तदाहं स्यां तवार्भकः स्मृतमात्रस्तवाग्रे संस्थास्यामि शिवनन्दिनि नयमाम् मां यत्र यास्यसि बालके कृपणे दीने न उदासिन्यं हि युज्यते देव उवाच न चिन्त्यं कुरु बन्धो त्वमत्रास्याम्यहं पुनः भवतो न वियो गो मे तस्मै ददौ तं मयूरेश स्वबन्धवे मयूरध्वज इत्येव नाम चक्रेष्य तत्क्षणाद् आरुरोहमयूरं तं स्कन्दो बन्धो रथाज्ञया तस्मिन्नेव क्षणे देवोऽन्तर्दथे स मयूरराड अपश्यन् ह्रदितं सदा तदो ब्रह्मा वालु का भी कृत मूर्ति गजाननीम सधिव प्रादे सुमनोहू जोसोकास्तमचारैर्यथ विधि वसीष्ठाद्या मुनिगणस स्नुर्ब्रह्मकमंडल सर्वनित्यविधिं कृत्वा ययुर्मूर्ति सुोभनीम् उपोष्य जिद्विदधुर्द्वाराणि धामलब्धये स्नात्वा नत्वा मयूरेशं धावमानास्तथा परे ऊचुः परस्परं देवामुनयोऽपि मुदा तदा नैदादृशं पुण्यक्षेत्रं यत्र देवस्थितः स्वयं मयूरेशो विघ्नकरो भक्तानां कामपूरकः पूजा इत्यैव मुक्त्वादु स्वमाश्रमं ब्रह्मादयसुरा स्वं, स्वं, स्वं, स्वं पदमभ्यागमं पदमभ्यागमंस्तदा शङ्करः सपरिवारकैलासमगमन्मुदा स्वदा स्वाहावषत्कारैरिन्द्राद्या मुमुदुस्तदा क उवाच एवं ते सर्वमाख्यातं त्रेदायुगकृतं मुने मयूरेशस्यचरितं श्रवणात्सर्वकामदम् धन्यं यशस्यमायुष्यं सर्वपापहरं नृणां पुत्रदं धनदं विद्याप्रदं दुःखनिवारणम् आधिव्याधिहरं कुष्टदुष्टरोगाधिनाशनं पठदां शृण्वतां पुंसां भुक्ति मुक्तिप्रदं शुभं विजयश्रीपद नृणां क्षत्रियाणां विशामपि शूद्राणामपि सर्वेषां श्रीपदं पुष्टिवर्धनं यद्यत्ते परिपृष्टं मे तत्तत्ते कथितं मुने गजाननस्य चरितं पुनः श्रोष्यसि मन्मुखात् इति श्रीगणेशपुराणे क्रीडाखण्डे षड्विंशत्युत्तरशततमोऽध्यायः ओम्